मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं ट्वेण्टित्रि मार्गशीर्षमासमाहात्म्ये वज्रपञ्चरकथनं श्रीगणेशाय नमः शौनक उवाच सङ्क्षेपेण महाभाग मार्ग शीर्षभवं परं माहात्म्यं वद सुदत्वं गणेशभक्तिदायकं सूद उवाच अन्धकासुरनामा वै दैत्यः परमदारुणः जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमं देवावनस्थिदा सर्वे भययुक्ता विशेषतः वधार्थं तस्य चोद्युक्ता रेभिरेण किमप्यहो ततः शम्भुः परां चिन्ता मापेदे मुनिभिः सह जगाम सहसा तत्र नारदकरुणानिधिः तं दृष्ट्वा हर्षसंयुक्ता देवाः शङ्करमुख्यपाः पप्रच्युस्ते महाभागं दुःखशोकयुधाः परं श्रीशिव उवाच अन्धकेन जिदा सर्वे वयं योगीन्द्रसत्तमा ग्रहीतुं पार्वतीं पत्नीं भावार्थमुद्यदो भवद कर्मनाशक प्रभावेणो पोषणेन समन्वितान् देवांस्तान् रक्षविप्रेशद्विजान् कर्मपरायणान् अन्धकस्य वधोपायं वद त्वं सर्ववित्तम करिष्यामो वयं तं तु भक्तियुक्ता महामदे नारद उवाच समीपे मार्गशीर्षस्तु सम्प्राप्तः सर्वसिद्धितः व्रतं मासात्मकं कार्यं गणेश्यप्रीतये त्वया जेष्यसे दैत्यपुङ्गवम् अन्धकं नाम सन्देहो विघ्नेशस्य प्रसादतः एवमुक्त्वा महायोगी नारदो गणपं स्मरन् वीणागानरथो विप्रनम्यतं स्वेच्छया ययौ तदो देवगणैर्युपुतो मुनिभिः शङ्करस्वयं मार्ग शीर्षभवं मुख्यं व्रतं चकारवैक्ष्णपं गणेशपञ्चकं नित्यं सेवयामास यत्नतः उष स्नात्वा विशेषेण गणेशमभजत् प्रभुम् उपोषणसमयुक्त शङ्करोहर्निशं परं तमेव चिन्तयन् भक्रिया ध्यानसंस्थो बभूवः एवं मासव्रतं पूर्णं शिवः द्विजोत्तमान् पूज्य भोज्य स्वयं देवश्चकारपारणं मुने ततोव्रतप्रभावेण सन्तुष्टो गणनायकः आययौ शंकरं तत्र वरदानार्थमादराद सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितं विघ्नेशं हर्षसंयुक्तशङ्करः प्रणनामतं शिवः पूज्य गणाधीशं देवैर्मुनिभिरादराद तुष्टाव हृष्टरोमासौ प्रबग्धकरसम्पुडः श्रीशिव उवाच गणेशाय नमस्तुभ्यं विघ्नराजाय ढुण्डये परेशाय च हैरम्बाय पाशिने नमो नमः मोषकवाहनायैव वा नमः परशुपाणये दन्दाभयधरायैव त्रिनेत्राय नमो नमः शूर्पकर्णाय वीराय चन्द्ररेखाधराय ते सिन्दूर भूषणायैव रक्तरङ्गाय ते नमः हेरम्बाय महाविघ्नवारणाय गजानन आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः स्वानन्दवासिने तुभ्यं स्वानन्दमयमूर्तये सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः आनन्दोदरभावाय ब्रह्मणाम्बदये नमः ब्रह्मभूताय देवाय दैत्य दैत्यदानवमर्दिने अनन्दविभवायैव भक्तपालनधर्मिणे अभक्तानां विनाशाय खेलकाय नमो नमः योगाय योगनाथाय योगिने योगदायिने सदा शान्तिस्वरूपाय शान्तिशादाय ते नमः किं स्तौमि त्वां गणेशानब्रह्मणस्पदिरूपिणं योगिनो वेदवेदान्ताः शान्तिं यत्र भजन्ति च धन्योऽहम् देवा देवायर मुनि देवपैर्देवैर्मुनिभिर्गणनायकदर्शनात्तेद्यपादस्य परात्परतरस्य च सामर्थ्यं देहि विघ्नेशज्ञानरूपं त्वयि स्थितम् आज्ञानान्धकनाशार्थं भक्तिं ते व्यभिचारिणीम् एवमुक्त्वा न नर्तासौ महादेव सुरर्षिभिः तं जगादगणाधीशो भक्तं भक्तजनप्रियः श्रीगणेश उवाच वज्रपञ्चरकमे त्वं गृह्य दैत्येन्द्रसत्तमं जहिज्ञानमयं शम्भो विजयी सर्वदा भव भक्तिं मदीयपादेत्वं त्वं लभसेनन्यवृत्तिजां यद्यदिच्छसि तत्तत्ते सफलं तु त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः शृणुयात्स लभेत् सर्वं वाञ्छितं सर्वदा शिव पुत्र पौत्र धन दान्यादिकं लभेद भक्तिं मे भ्रमभूतत्वं श्रवणान्नात्र संशयः सुद उवाच एवं गणेशवाक्यं सश्रुत्वा कर्षसमन्विदः शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः श्रीशिव उवाच वज्रपञ्चरकं नाथब्रूहि मे गणपप्रियं ज्ञानमयं महान्धस्य नाशकं सुखदायकं श्रीगणेश उवाच आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननं वज्रपञ्चरकं ग्राह्यं सर्वाज्ञानविनाशनम् त्रिनेत्रं गजास्यं चतुर्बाहुधारं परस्वादिशस्त्रार्युदं फालचन्द्रं नराकारदेहं सदा योगशान्तं गणेशं भजे सर्ववन्द्यं परेश्यं एवं ध्यात्वा गणेशानां मानसैरुपचारकैः पूजयेत् तं धारये धारयेद्वज्रपञ्चरं बिन्दुरूपो वक्रतुंडो रक्षधूमे हृदि स्थितः देहांश्चतुर्विधांस्तत्वांस्तत्वा धारः सनातनः देहमोहयुतं ह्येक दन्तस्सोऽहं स्वरूपदृक देहिनां मां विशेषेण रक्षतु भ्रमनाशकः महोदरस्तथा देवो नाना बोधान् प्रदा भवान् सदा रक्षतु मे बोधानन्दसंस्तोह्यकर्निशं सां ख्यान् रक्षतु सां ख्येषो गजाननः सुसिद्धिदः असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु सत्सु स्थितं सुमोहेन विकटो मां परात्परः रक्षतु भक्तवात्सल्यात् सदैकामृदधारकः आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः विघ्नराजो महाविघ्नायैर्नानाखेलकरं प्रभुः अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपदृक मां रक्षतु सुखाकार सहजः सर्वपूजितः स्वसंवेद्येषु संस्थं मां गणेशस्वस्वरूपदृक रक्षतु योगभावेन संस्थितो भवनायकः अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः निवृत्तिरूपदृक्साक्षादसमाधिसुखे रतः योगशान्तिधरो मां तु रक्षतु योगसंस्थितं गणाधीशप्रसन्नात्मा सिद्धिबुद्धिसमन्वितः पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः रक्षदुपश्चिमे ढुण्ढिर्हे रम्भो वायुदिक्स्थितं विनायकश्चोत्तरे दुःप्रमोदश्चेशदिक्स्थितम् ऊर्ध्वं सिद्धिपधिपादु बुद्धिशोद्धस्थितं सदा सर्वाङ्गेषु मयूरेश्य पादु मां भक्तिलालसः यत्र तत्र स्थितं मां तु सदा रक्षतु योगभः परशुपाशसंयुक्तो वरदाभयधारकः इदं गणपदे प्रोक्तं वज्रपञ्चरकं परं धारयस्व महादेव विजयी त्वं भविष्यसि य पञ्चरं धृत्वा यत्र कुत्र स्थितो भवेद् जायते क्वापि भयं नानास्वभावजं यः पठेत् पञ्चरं नित्यं स ईप्सितमवाप्नुयाद वज्रसारथनुर्भूत्वा चरेत् सर्वत्र मानवः त्रिकालं यः नित्यं स गणेश इवापरः निर्विघ्नः सर्वकार्ये शुभ्रह्मभूतो भवेन्नरः यशृणोति गणेशस्य पञ्चरं वज्रसंज्ञकम् आरोग्यादिसमायुक्तो भवदे गणपप्रियः धनं धान्यं पशून् आयुष्यं पुत्रपौत्रकं सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेद नभयं भयं तस्य वज्रात् चक्राूलात् भवेत्कदा शङ्करादेर्महादेव पठनादस्य नित्यशः यं यं चिन्तयते तं प्राप्नोति शाश्वतम् पठनादस्य विघ्नेश पञ्चरस्य निरन्तरं लक्षावृत्तिभिरेवं स सिद्धपञ्चरको भवेद स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेद् येवमुक्त्वा गणेशानोऽन्तर्दधे मुनिसत्तमशिवो देवादिभिर्युक्तो हर्षिदः <Sed> सम्बूवः लक्षावृत्तिं चकारासौ यथाविधि परायणः सिद्धपञ्चरको भूत्वा यया वन्धकदैत्यपम् गणेशम् मनसा ध्यात्वा कृत्वा युद्धं सुदारुणं त्रिशूलेनान्धकं सोपि विव्याधगर्वसंयुतं एवमन्थगदैत्येषं जित्वा शम्भुःप्रतापवान् देवान् संस्थापयामासस्वस्थानेषु सुनिर्भयान् विश्वं स्वधर्मसंयुक्तं चकारशङ्करस्वयं मार्गशीर्षव्रते नैव पञ्जरेण समन्विदः इदमन्धकनाशाख्यं चरितं यशृणो दिवा पठेद्वास लभेत् प्रीतिं गणेशे सर्वसिद्धये ॐ तत्सदि श्रीमदान्ध्ये श्रीमन् मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मार्गशीर्षमा समाहात्म्ये वज्र पञ्चरकधनं नामत्रयो त्रयो विंशोऽध्यायः ओम्